सप्ताधिकशततमोऽध्यायः वैशम्पायनो वाच ततः समुनिषार्तूलस्तानुवाच तपोधनान् दोषतः कं गमिष्यामि नहि मेऽन्योपराध्यति तं दृष्ट्वा रक्षिणस्तत्र तथा राज्ञे यथा वृत्तं न वचनं तेषां निश्चित्य सहमन्त्रिभिः प्रसादयामास तथा शूलस्थं ऋषिसत्तमं राजोवाच यन्मयापकृतं मोहादज्ञानादृषि सत्तम प्रसादयेत्त्वां तत्राहं नमे त्वं क्रोद्धुमर्हसि वैशम्पाय न उवाच एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः कृतप्रसादम् राजातं ततः समवतारयत् अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्षः अशक्नुवंश्च निष्क्रष्टुं शूलं मूले सचिच्छिते स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः तेनातितपसा लोकान् विजिज्ञे दुर्लभान्परैः अणीमाण्डव्य इति च ततो लोके गीयते सगत्वा सदनं विप्रो धर्मस्य परमात्मवित् आसनस्थं ततो धर्मं दृष्टोपालभतप्रभुः किं नु तद्दुष्कृतं कर्मा मया कृतमजानत यस्येयं फलनिर्वृत्तिरीदृश्या साधिता मया शीघ्रमा चक्ष्वमे तत्त्वं पश्यमे तपसो बलं धर्म पुच्छेषु त्वये शीका प्रवेशिता कर्मणस्तस्य ते स्वल्पमेव यथा दत्तम् दानम् भवेत् अधर्म एवम् विप्रश्ये बहु दुःखफलप्रदः अणिमाण्डव्य उवाच कस्मिन् काले मया तत्तु कृतम् ब्रूहि तेनोक्तो धर्मराजेन बालभावेत्वयाकृतं। त्वया कृतम् उवाच बालो हि द्वादशात् वर्षात् जन्मतो यत्करिष्यति न भविष्यत्यधर्मोऽत्र न प्रज्ञास्यन्ति वैदिशः अल्पेऽपराधेऽपि महान् मम गरीयान् ब्राह्मणवधः सर्वभूतवधादपि शूद्रयोनावतो धर्म मानुषः सम्भविष्यसि मर्यादाम् स्थापयाम् यद्य लोके धर्मफलोदयाम् आचतुर्दशकात् वर्षान् न भविष्यति पातकम् परतः कुर्वतामेवम् दोष एव भविष्यति वैशम्पाय न उवाच महात्मनः धर्मो विदुररूपेण शूद्रयोनावजायत धर्मे धर्मेंदे चकुशो लोभक्रोध विवर्जि दीर्घदर्शी शमपर क्रूण चितेरत महाभार आदिपर्व संभवपर्वण अणी मंडव्योपाख्याततमोध्या